लक्ष्मी अष्टोत्तरीर्दुल विक्रीडितम् अरसि of lakshmi ashtotara stotram is in anushthup after 14 shlokas the shloka starting with lakshmim chira samudr rajatanaya is in the meter shardula vikriditam and the shloka ma darna maami kamale is in the meter vasanta lagam the phala shruti is in anushthup happy chanting श्रीदेव्य उवाच देवदेव महादेवत्रिकालज्ञ महेश्वर करुणाकर देवेश भक्तानुग्रहकारक अष्टोत्तरशतम् लक्ष्म्या श्रोतुमिच्छामि तत्त्वत ईश्वर उवाच देवि साधु महाभागे महाभाग्यप्रदायकम् सर्वैश्वर्य करम् पुण्यम् सर्वपापप्रणाशनम् सर्वदारिद्र्यशमनम् श्रवणाद् भुक्तिमुक्विदम् राजवश्यकरम् दिव्यम् गुह्याद् गुह्यतरम् परम् दुर्लभम् सर्वदेवानाञ्चतुषष्टि कलास्पदम् पद्मादीनां वरान्दानाम् निदीनान् नित्यदायकम् समस्तदेव संसेव्यमणिमाद्यष्टसिद्धिदा किमत्र बहुनोक्लेन देवि प्रत्यक्षदायकम् तव प्रीत्याद्य देवता क्लीम्बीजम्बदमित्युक्तम् शक्तिस्तु भुवनेश्वरी अङ्गन्यास करन्यास स इत्यादिप्रकीर्तित ध्यानम् वन्दे पद्मकराम् प्रसन्नवदनाम् सौभाग्यदाम् भाग्यदाम् हस्ताभ्यामभयप्रदाम् मणिगणैर्नानाविधैर्भूषिताम् भक्ताभीष्टबलप्रदाम् हरिहर ब्रह्मादिभिः सेविताम् पार्श्वे पङ्कज शङ्खपद्मनिधिभिर्युक्तां सदा शक्तिभिः सरसि जनयने सरोजहस्ते धवलधरां सुगगन्धमाल्यशोभे भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूदिकरि प्रसीद ओ कृतिम् विकृतिम् विद्याम् सर्वभूत हितप्रदाम् श्रद्धा विभूतिं सुरभिन्नमामि परमात्मिकाम् वाजम् पद्मालयाम् पद्मां शुचिं स्वाहा स्वधां सुधाम् धन्यां किरण्मयीं लक्ष्मी नित्यपुष्टां विभावरीम् अदिं च दिदीं दीप्तां वसुधां वसुधारिणीं नमामि कमलां कान्दाङ्कामां क्षीरोदसम्भवाम् अनुग्रहपदाम् बुद्धिमनखां हरिवल्लभाम् अशोकामृदां दीप्तां लोकशोकविनाशिनीम् नमामि धर्म निलयां करुणां लोकमादरम् पद्मप्रियां पद्महस्ताँ पद्माक्षीं पद्मसुन्दरीं पद्मोद्भवां पद्ममुखीं पद्मनाभप्रियां रमाम् पद्ममालादरान् देवीं पत्मिनीं पद्मगन्धिनीम् पुण्यगन्धां सुप्रसन्नां प्रसादाभिमुखीं प्रभां नमामि चन्द्र वदनाञ्चन्द्राञ्च्र सहोदरीं चतुर्भुजा चन्द्ररूपामिन्दिरामिन्दुशीतलाम् आह्लाद जननीं पुष्टिं शिवां शिवहरीं सदीम् विमलां विश्वजननीं तुष्टिं दारिद्र्यनाशिनीं प्रीतिपुष्करिणीं शान्तां शुक्लमाल्याम्बरां श्रियं भास्करीं बिल्वनिलयां वरारोहां यशस्विनीं वसुन्धरामुदाराङ्गां हरिणीं हेममालिनीं धन धान्यकरीं सिद्धिं त्रैण सौम्यां शुभप्रदाम् नृपवेष्मगदानन्दां वरलक्ष्मीं वसुप्रदाम् शुभां किरण्यप्राकारां समुद्र कनयाञ्जयाम् नमामि मङ्गलां देवीं विष्णो वक्षस्थलस्थिताम् विष्णुपत्नीं प्रसन्नाक्षी नारायणसमाश्रिताम् दारिद्र्यद्वंसिनी देवीं सर्वोपद्रववारिणीं नवदुर्गां महाकालीं ब्रह्मविष्णु शिवात्मिकाम् त्रिकालज्ञानसम्पन्ना नमामि भुवनेश्वरीं। लक्ष्मीम् क्षीरसमुद्रराजतनयाम् श्रीरङ्गधामेश्वरीम् दासीभूत समस्त देव वनिताम् लोकैकदीपाङ्गुराम् श्रीमन्मन्द कटाक्षलब्धविभव ब्रह्मेन्द्र गङ्गाधराम् त्वाम् त्रैलोक्य कुटुम्बिनीम् सरसिजाम् वन्दे मुकुन्द मादर्नमामि कमले कमलायताक्षि श्रीविष्णुहृत्कमलवासिनि विश्वमाध क्षीरोदजे कमलकोमलगर्भगौरिलक्ष्मिप्रसीदसतदन्नमदां शरण्ये त्रिकालं योजते द्विद्वान्षण्मासंविदितेन्द्रिया दारिद्र्यध्वंसनम् कृत्वा सर्वमाप्नोत्ययत्नदा देवी नाम सहस्रेषु पुण्यमष्टोत्तरम् शतम् येन श्रियमवाप्नोति दरिद्रकोटिजन्मसु भृगुवारे शतम् धीमान् पदे ध्वत्सरमात्रकम् अष्टैश्वर्यमवाप्नोति कुबेर इव दारिद्र्यमोचनम् नाम स्तोत्रमम्भावरम् सदम् येन पडंस्तु चिन्तयेद्देवीं सर्वाभरणभूषिताम् इति श्रीलक्ष्म्याष्टोत्तरशतनामस्तोत्रम् सम्पूर्णम्